गर्गसंहिता खण्डं टेन् अश्वमेधः खण्डम् अध्यायं सिक्स् श्रीगर्ग उवाच पुनस्ते कथयिष्यामि श सङ्क्षेपदो हरेः चकारहास्यं भगवान् रुक्मिण्या सह चाद्भुतम् अनिरुद्धविवाहे चावधीद्भ्रात्रा दुरुक्मिणम् उ स्वप्नकथा चित्रलेखया हरणं हरेः पौत्रस्य बन्धनं चापि बाणयादव संयुगः कृष्णशङ्करयोर्युद्धे ज्वरः संस्तवनं तदः बाणबाहुच्चिदो रुद्रस्तुतिर्बाणस्य रक्षणे उषाप्राप्तिर्नृकाख्यानं बलस्य च व्रजागमम् गोपीविलापो रामस्य स्तुतिर्गोपीभिरेव च यमुनाकर्षणं काशीपदि पौण्ड्रकखादनं कृत्योत्पत्तिर्दाहनं च काश्या कपिवधस्तदः साम्बस्य बन्धने रामविक्रमो गजसाह्वये उग्रसेन राजसूये जखान शकुनिं हरिः नारदेन हरिर्लीलादर्शनं गृहमेधिनाम् आग्निकम् वासुदेवस्य राजदूतेन वै स्तुतिः इन्द्रप्रस्थे जगमनमुद्धवेन च यादवैः जरासंधं च भीमेन निजखान गिरिव्रजे सहदेवाभिषेकम् च राजभिश्च कृदास्तुतिः राजसु ये हरे पूजा शिशुपालवधस्तथा दुर्योधनाभिमानस्य भङ्गप्रद्युम्न शाल्वयोः युद्धम् त्रिनवरात्रम् च कृष्णस्यागमनम् तदः शाल्वस्य दन्तवक्त्रस्य तद्भ्रा तदो गजाह्वये राजन दुर्दुतेन च कौरवैः विनिर्जितो भ्रातृ युक्तस्सभर्यस्तु युधिष्ठिरः वनं जगाम संस्थाप्य वृथां च विदुरगृहे गत्वारण्ये निवासं वै चकार बहुभिर्दिनैः तदश्च पालयामासमहीं दुर्योधनो मुदा प्रजास्तम्नाभ्यनन्दन् स्म पाण्डुपुत्रे गदे सदि अरण्ये वर्तमानान् वै पाण्डवान् दुःखकर्षितान् मिलित्वाश्वासयामास ह्यनन्तश्चैकदाहरिः दृष्ट्वा ध पाण्डवान् कृष्णो ह्यजगामकुशस्थलिम् उग्रसेनसुधर्मायाम् शशंसचेष्टितं च तद् तच्च श्रुत्वा यादवाश्च प्रोजु सर्वेहि विस्मिताः यादवा ऊजुः किं कृतं धृतराष्ट्रेण दीना भ्रातृसुदा अहो दुर्दुतेन विनर्जित्य धर्मान् निष्कासिदा गृहाद धर्मेण विनश्यन्ति कौरवा राज्यलोलुपाः पाण्डवेभ्यस्तु भगवां तस्माद् दास्यति सम्पदं गर्ग उवाच इति श्रुत्वा वाक्यं च मधुसूदनः आययौ स्वभवनं सायङ्काले नृपेश्वर आगतं स्वात्मजं वीक्ष्य नमन्तं देवगी दत्वा शिशम् च कारयामास वै सदि ततः स चायौ कृष्णस्वस्त्रीणाम् मन्दिराणि च प्रियाभिपूजितस्तत्र चकारशयनम् किल यदि श्रीगर्गसंहितायामश्वमेधखण्डे श्रीकृष्णचरितवर्णनं नाम षष्टोऽध्यायः ओ अध्यायम् सेवन् गर्ग उवाच देवर्षिश्चैकदा राजन दृष्ट्वा रामम् च केशवम् स्ववीणाम् वादयन् कृष्णगाधाम् गायन् समाययौ ब्रह्मलोका सर्वलोकान् पश्यन् भास्करसन्निभः साकम् तुम्बुरुणा पिङ्गजडाभारेण शोभिदः किञ्चित् श्यामो मृगाक्षश्च काश्मीरतिलकैर्मृतः ईदेन धौधवस्त्रेण तथा पीदाम्बरेण च रङ्गवल्ली मालया च व्रजस्त्री चन्दनेन च वृद्धपञ्चदशाब्दैश्च बहु दृष्ट्वा तमागतम् राजा शक्रसिंहासने स्थितः सुधर्मायाम् षष्ठोद्धाय नत्वा सिंहासनम् ददौ तदङ्घ्री चावनिज्याध कृत्वा पूजनमुत्तमम् तज्जलमस्तके धृत्वा चोग्रस्य नस्तमब्रवीद उग्रसे न उवाच अद मे सफलम जन्म सबलम सदनम च मे अद मे सफलश्चात्मा देवर्षे तव दर्शनाद नमस्म भगवद नारदा महात्मने कामक्रोध विहनाय ऋषण प्रवराय च किमर्थमागतोऽसि त्वमाज्ञां कुरु ममोपरि निशम्यवचनं तस्य ऋषिर्निर्जरदर्शनः उवाच नृपशार्दो लं मनसा नारद उवाच यादवेंद्रमहाराज धन्यस्त्वं पृथिवीपदे भक् कौ निवस बलन सह केशवसूय क्रदुवरपुरा मध्वजनाया कृतश्रीकृष्ण द्वारकाया सुखे नृलोक ते कीर्तिर्नृप विस्तता भुवि राजधौ च कठिन्न मंडलेवर हरिभक्त राजेन्द्र सुलभ द्वयोर मध्ये राज्य स्वया नृप तथा युधिष्ठि कृद कृष्णाजया तद द्वापरा भारत तो दूत्तमः न कृदकेन राज्ञापि मुक्तिदस्त्वकनाशनः द्विजः विश्वः गोघ्नो वाजिमेधेन शुध्यति तस्माद्वरम् च यज्ञानाम् हयमेधम् वदन्ति हि निष्कारणम् नृपश्रेष्ठ वाजिमेधम् करोति व्रजेत् सुपर्णकेतोः सदनं सा, सिद्धदुर्लभम् यदि देवर्षि निशम्य च अयमेधं यज्ञवरं कर्तुं चक्रे मदिं नृप तदैव सह कृष्णं वीक्ष्य गतं नृपः पूजयित्वा सनि साकं च ऋषिणा ब्रवीध उग्रसेन उवाच देवदेव जगन्नाथ जगदीश जगन्मया वासुदेव त्रिलोकेश शृणुष्व वच मम् मम मत्पुत्रेण च कंसेन बालकाश्च सहस्रशः विना पराधेन हरे मारिताश्च महासुरैः तस्य मुक्तिश्च गोविन्दम् कथम् भवति पापिनः कस्माल्लोके गधक् कंसो बालाकादी वदस्व मे तस्य पापेनाहमपि भीदोऽस्मि जगदीश्वर पुत्रस्य पापेन पिता नरके पतति ध्रुवं पितुः पापेन पतति निरये तथा सुतः तस्माच्च किं करिष्ये कथितं नारदेनाद्य तत् शृणुष्व जगत्पदे विप्रहा विश्वः गोघ्नो हयमेते न शुध्यदि तस्मिन् यज्ञे मनो यदि चाज्ञां प्रदास्यसि गर्ग उवाच इति तस्य वच श्रुत्वा मुदा मदनमोहनः मनसि प्राहसम्पश्यन्तरां भारेण पीडिताम् अहो मया तु बहुशो धराभारोऽवतारितः तथापि सति कौ मध्ये स्वश्वमेधेन नश्यति नाहं हनिष्ये शत्रून्वै स्वहस्तेन मृदाङ्गणे यदि प्रतिज्ञातु कृदा विदूरधवधे मया तस्माच्च प्रेषयिष्यामि स्वपुत्रान् यादवां तथा जयदुं वसुन्धरां सर्वं हयमेधमिष्येण च यदि वार्तां वज्रनाभे विश्वक्सेनो विचार्य च सुधर्मायां च प्रहसन्नुग्रसेनमुवाच वै श्रीकृष्ण उवाच मया हदो महाराज कंसो वैकुण्ठमन्दिरं गतो भूत्वा ममाकार नित्यं वसति तत्र वै तथा त्वमभिराजेन्द्र विपापो दर्शनान् मम तथापि हयमेधं त्वं यशोऽर्थे कुरु भूपदे यज्ञेन ते महत्कीर्तिपृथिव्यां च भविष्यति इति तत्कथितं श्रुत्वा कृष्णस्याक्लिष्टकर्मणः उवाच परमं वाक्यमुग्रसेनो मुदा नृपा राजोवाच अद्य देव करिष्येहमश्वमेधम् प्रदुत्तमम् स भविष्यति शीघ्रं वै गोविन्दकृपया अयमेधस्य च विधिं सर्वं मे ब्रूहि विस्तराद इति श्रुत्वा च तद्वाक्यमवोचद्विष्टरश्रवाः हयमेधविधिं हा। पृच्छ देवर्षिं नारदं प्रति स तव अग्रे जदति सर्वज्ञादा यदुध्वः इति वाक्यं हरे श्रुत्वा यदुराजो मुदान्विदः सभायां संस्थितम् राजन्दे वर्षिम् निजगादः तुरङ्गकीदृशो भाव्यकति सङ्ख्याद्विजोत्तमः दक्षिणाकीदृशिब्रमन् वदमे कीदृशं व्रतम् उग्रसेनस्य वचनमाकर्ण्य देवदर्शनः स्मयमान इव प्राह प्रीत्या कृष्णम् विलोकयन् श्रीनारद उवाच चन्द्रवर्णम् रक्तमुखम् पीधपुच्छम् मनोहरम् सर्वाङ्गसुन्दरम् दिव्यम् श्यामकर्णम् सुलोचनम् प्रवदन्ति महाराज यज्ञेऽस्मिन् हयमीदृश्यम् मधुमासे पूर्णिमायाम् मोच्योयम् कोटको नृप महावीरैः पालनीयो वर्षमात्रम् हयोत्तमः अश्वस्यागमनम् यावद्भविष्यति स्वके पुरे निवस्ये धैर्यसंयुक्तस्तावत् कर्ता प्रयत्नतः यत्र यत्र पुरेशम् च मूत्रम् च कुरुदेहयः हा। कर्तव्यम् हवनम् विप्रायैर्दातव्यम् गोसहस्रकम् संलिख्य काञ्चनम् पत्रम् स्वनाम बलचिह्नितं हयस्य बाले बध्वा च कथनीयमिदं वजः सर्वे शृणुदराजानो विमुक्तोऽस्ति हयो मया कश्चिद्भूयस्यामकर्मं प्रतिगृह्णातु चेद् बलाद् मानेन स जेतव्यो बलात् स्वयम् विप्राविंशतिसाहस्रा यज्ञादौकीर्तिदा नृता वेदज्ञा सर्वशास्त्रज्ञा कुलीनाश्च तपस्विनः अत्र ते कथयिष्यामि समर्थत्वम् शृणुष्व च वाजिमेधे महाराजविप्राणाम् दीर्घदक्षिणाम् तुरगाणाम् सहस्रम् च गजानाम् शतमेव द्विशतं स्यन्दनानां च सहस्रं च गवां तथा विंशद्भारं सुवर्णानां प्रदातव्यम् द्विजे द्विजे यज्ञस्यादौ तथा चां ते ईदृशी दक्षिणामदा असिपत्रव्रतं कृत्वा ब्रह्मचर्यसमन्वितः कौ सार्धमेकत्र कुल्याश्च शयनं निशि वर्षमात्रम् महाराज कर्तव्यं व्रतमीदृश्यम् दीनानां च प्रदा दीनानां च प्रदातव्यमन्नं वा बहुशोधनं विधिनानेन राजेन्द्र क्रतुरेष भविष्यति असि पत्रव्रतयुधो बहुपुत्रफलप्रदः भीष्मं विनाहि हि मदनं को विचेदुम् भवेन्नरः तस्माद्भिदा न कुर्वन्ति कठिनं चैनमद्भुतं कामं प्रतिविचेदुं वै शक्तिस्ते विद्यते यदि कुरु गर्गम् समाहूय यज्ञारम्भम् नृपोत्तम यदि श्रीगर्गसंहितायामश्वमेधण्डे यज्ञोद्योगवर्णनं नाम सप्तमोऽध्यायः ओ अध्यायम् एय् श्रीगर्ग उवाच इति तद्वाक्यमाकर्ण्य स्पष्टाक्षरसमन्वितं राजर्षिप्राहदेवर्षिं विस्मितप्रहसन्निव राजोवाच मुने यत्नं करिष्येऽहं यज्ञयोग्यं तुरङ्गमं गत्वा ममाश्वशालायाम् हयानां त्वं विलोकय नृपस्य वचनं श्रुत्वा तथेत्युक्त्वा च नारदः वाजिशालां ययौतेन दुग्धाभाञ्जलसन्निभान् स गत्वा तत्र तुरगान् धूम्रवर्णान् मनोहरान् श्यामवर्णान् कृष्णवर्णान् पद्मवर्णान् ददर्श वै तथा शालायां मुग्धाभालसन्निभान् हरिद्राभान् कुङ्कुमाभान् पलाशकुसुमप्रभान् तथा चित्रविचित्राङ्गान् स्फटिकाङ्गान् मनोजवान् तथा च अन्यत्र शालायां कौसुम्भाङ्गान् शुकप्रभान् इन्द्रगोपनिभान् गौरान् दिव्यान् पूर्णशशिप्रभान् सिन्धूराङ्गान् अग्निवर्णान् बालः सूर्यसमा नृप ईदृशांश्च हयान् दृष्ट्वा नारदो विस्मयान्विदः उवाच कृष्णसहिदमुग्रसेनम् असन्निव नारद उवाच वाजिनस्ते महाराज सर्वैः बहु सुन्दराः ईदृश्य नैव स्वर्लोके पृथिव्याम् चरसाकले वरददेवाजिशालायाम् कृष्णस्य कृपया तव ये कोऽपि श्यामकर्णस्तु तेषाम् मध्येन दृश्यते श्रीगर्ग उवाच निशम्यवाक्यम् देवर्षिर्नृपस्तु दुःखितो भवद यज्ञो भविष्यति कथम् मनसि दिविचारयन् उदासीनम् नृपम् दृष्ट्वा भगवान् मधुसूदनः अवोचत् प्रखसञ्चीक्रम् मेकगम्भीरया गिरा श्रीकृष्ण उवाच शृणुमद्वचनम् राजन् सर्वम् शोकम् विहाय च गत्वा ममाश्वशालाम् वै श्यामकर्णम् विलोकय इत्युदीरितमाकर्ण्यकृष्णेन च सुरर्षिणा हरेश्च वाजिशालाङ्गि जगाम नृपसप्तमः ददर्शतां स गत्वा च यज्ञयोग्यान् सहस्रशः श्यामकर्णान् पिदपुच्छान् चन्द्रवर्णान् मनोज्ञवान् सर्वाङ्गसुन्दरान् दिव्यान् सप्त शुभान् यदान् दृष्ट्वा हयान् राजा विस्मयम् परमम् गतः हर्षेण महदा युक्तकृष्णम् नत्वा ब्रवीद्वजः राजोवाच श्यामकर्णाश्च बहुशो मया चाद्यनिरीक्षिताः दुर्लभम् किम् जगन्नाथ त्वद्भक्तानान्तरातले यथा मनोरथपूर्वम् प्रह्लादस्य ध्रुवस्य च आसीत्त्वत्कृपया कृष्ण तथा मम मनोरथः इति श्रुत्वा हरीराजन् शार्ङ्गी भूपमवोचत श्रीकृष्ण उवाच एकम् त्वम् श्यामकर्माणामश्वानां चन्द्रवर्चसां गृहीत्वा नृपशार्दूलकुरु यज्ञं ममाज्ञया गर्ग उवाच श्रुत्वा वाक्यं हरिम् प्राह करिष्ये क्रदूतमम् यद्युक्तुवा तेन सहितो नारदेन सभां गयौ तद कृष्णमनुज्ञाप्य नारदः सहतुम् पुरुः राजानमाशिषम् दत्त्वा सदनं ययौ यदि श्रीगर्गसंहितायामश्वमेधखण्डे तुरङ्गदर्शनं नामाष्टमोऽध्यायः अध्यायम् नैन् गर्ग उवाच अधराजा कुशस्थल्याम् गते देवर्षिसप्तमे स्वदूतान्प्रेक्षयामास मामानेदुं नृपेश्वर त ऊचुरग्रसेनस्य ममाग्रे वचनं नराह द्रूदा ऊजुः देवदेवमुने ब्रह्मन् भूदेवानां शिरोमणि अस्माकं वचनं सर्वं कृपया शृणु विस्तराद कृष्णेच्छया द्वारया द्वारकायामुग्रसेनेन भो मुने निरूपितं क्रतुवरं तव शिष्येण धीमदा त्वमागच्छ मुने शीघ्रम् तस्मिन् यज्ञमहोत्सवे श्रीगर्ग उवाच तेषामहम् वच श्रुत्वा जग्मिवान् द्वारकाम् पुरीम् गर्गाचलन्नृपश्रेष्ठयज्ञकौतुकसंयुतः तदो दृष्ट्वा पुरी दूरा चानर्थे द्वारकामया नानाद्रुमगणैर्जुष्टा नानाचोपवनैर्युधा नाना, नाना, नाना तडागैर्वापीभिर्नानापक्षिगणैस्तथा नीलरक्तसिदाम्भो जैः पीदपत्मैः सरोवराः राजन्दे कुमुदैश्चैव शुकपुष्पैर्नृपेश्वर बिल् कदम्बैर्न्यग्रोधै शालै स्तालैस्तमालकैः बकुलैर्नागपुन्नागै कोविदारैश्च पिप्पलैः जम्भीरैर्हार सिङ्गारय रां रय रां राधकैरवि केदकीभिर्गोस्तनीभिः कदलीभिश्च जग्भुभिः श्रीभलैपिण्डखर्जूरै कदिरैपत्रबिन्दुभिः अगरैस्तगरैश्चैव चन्दनैरक्तचन्दनैः पलाैश्च कपित्थैश्च प्लक्षैर्वेत्रैश्च वेणुभिः मल्लिकाभिर्यूधिकाभिर्मोदिनीभिर्महीरुहैः तदा मदनबाणैश्च सहस्रांशुमुखद्रुमैः प्रिया वंशैर्गुल्मवंशैकर्णिकारैश्च पुष्पितैः सहस्राख्यैकन्दुकैर्वै चागस्तैश्च चागस्त्यैश्च सुदर्शनैः चन्द्रकाख्यैश्च कुन्दैश्च कर्णपुष्पैश्च दाडिमैः अनुजीरैर्नागरङ्गैराडुगीजानकीबलैः पूगीबलैर् बदामैश्च तूलैराजा धनैद्रुमैः यलाभिशवदिभिश्च तथा वै देवदारुभिः यीदृश्यैश्च महावृक्षैशोभिदा नगरी हरेः कुञ्चन्ति यत्र राजेन्द्रमयूरा सरसा शुकाः हंसा पारा वदाश्चैव कपोधा कोकिलास्तथा सारिकाश्चक्रवाकाश्च कञ्चनाश्चडखा किल यदे पक्षिगणः सर्वे वैकुण्ठाश्च समागताः कृष्णकृष्णेदि मधुरां वाणीं गायन्ति यत्र इत्थं पश्यन् व्रजन् राजन्ददर्शद्वारकामहं ताम्ररौप्यसुवर्णैश्च त्रिभिर्दुर्गैश्च वेष्टितां गिरिणा रैवतेनापि देववृक्षमयेन च रत्नाकरेण गोमत्या वृदां परिखभूतया कृष्णस्य नगरीं रम्यां कृतकौतुकतोरणं मुदायुक्तजनागीर्णां सुवर्णभवनैर्युदां तदा हाडगहट्टाभिपदाकाभिश्च मण्डितां विष्णोश्च मन्दिरैः प्रोच्चैर्महेशस्यालयैर्युदाम् यदुभिश्च महाशूरैर्विमानैश्च सहस्रशः सदशृगाणकैश्चैव कलशैर्धर्मकर्बुरैः प्रभ्याभिर्मुराभिश्च गन्दिशालाभिरेव च गोशालाभिश्च शालाभिश्च सुरौप्यपथिभिर्युदाम् प्रासादैर्नवलक्षैश्च कृष्णस्य परमात्मनः तथा षोडशसहस्रैर्भवनैर्वेष्टिताम् पुरीम् द्वारे द्वारे द्वारकायां शूरवीराश्च कोडिशः रक्षन्त्यहर्निशं राजन् सर्वशास्त्रधरा किल प्रगायन्ति जना सर्वे श्रीकृष्णबलदेवयोः गृहे गृहे च नामानि शृण्वन्ति चरितानि च युद्धं विलोकयन् सर्वान् सुधर्मायामहं गतः कृष्णेदि पातु काढस्तुलसी मालया जपन् दृष्ट्वा अधोऽग्रसेनो राजर्षेर्दृष्ट्वा माञ्चसमागतं समुद्धायमुदायुक्तशक्रसिंहासनात् किल षट्पञ्चाशत्कोटिसङ्घर्यादवैः सह भूपते नत्वा सिंहासने स्थाप्य पूजयामास चाहुकः मदङ्घ्रे चावनिज्याध यादवानां च सन्निधौ पादोदकं स्वशिरसि धृत्वा प्राह नृपेश्वरः उग्रसेन उवाच विप्रेन्द्रनारदमुखाच्छ्रुतं यस्य महद्फलं तं यत्नमश्वमेधाख्यं करिष्येहं तवाज्ञया यस्याङ्घ्रिते वय पूर्वे मनोरथमहार्णवम् तेरुर्जगतृणीकृत्य स कृष्णश्चात्र वर्तते श्रीगर्ग उवाच यादवेन्द्रमहाराज सम्यग्व्यसितं सम्यग्व्यवसितं त्वया हयमेधेन ते कीर्तिस्त्रिलोक्याम् सम्भविष्यदि कप्रयास्यतिरक्षार्थं तुरगस्य नृपेश्वरा बहव निश्चयम् कुरु वर्षमात्रम् प्रकर्तव्यमसि त्वया तदा तु कुशलेनाभिभविष्यधिक्रदूत्तमः तुरङ्गास्याद्यरक्षार्थं तम् पुनः किं नियोक्ष्यसि इति मद्वचनम् श्रुत्वा राजा चिन्तापरायणः ददर्शसंस्थितम् नृणाम् सर्वदुःखहरम् हरिम् तदैव भगवान् दृष्ट्वा शोकेनापूरितं नृपं ताम्बूलवीटकम् नीत्वा प्रहसन्निधमब्रवीद श्रीकृष्ण उवाच भोः शूरा यादव सर्वे बलिनोरणकोविदाः उग्रसेनस्य चाग्रे वै शृण्वन्तु ममभाषितं व्योमोच यदिराजेभ्यो हयमेधतुरङ्गगम् महारथीमनस्वी च स्वयं गृह्णातु वीटकम् युधि श्रुत्वा हरेर्वाक्यं यादवा युद्धकोविदाः परस्परं प्रपश्यन्तो गदमानाः पुनः पुनः संस्थितो खटिकामात्रं रेजेताम्बूलबीडिकः कृष्णस्य सुन्दरे यथा तामरसे शुकः ततश्च सर्वेषु गदेषु तूष्णीमुषापदि चापधरो महात्मा प्रगृह्यताम्बूलचयं नृपेन्द्र नत्वा च कृष्णं निजगाद सद्यः श्री अनिरुद्ध उवाच अखं हि राजन्येभ्यश्च पालनं करिष्यामि जगन्नाथ तस्मान् मां त्वं नियोजय न करिष्ये कोटकस्य पालनं यदि तच्छृणु प्रतिज्ञा मम गोविन्द दीनस्य दीनवत्सल ब्रह्माणि गमनाक्षत्रि वैश्यस्य शूद्र एव याम् गतिम् प्राप्नुयान्नूनम् तामहम् दुःखदायिनीम् विप्रम् कृत्वा गुरुम् पूर्वम् पश्चात्म् यौनसेवदे स यादियाम् गतिम् देव प्राप्नुयाम् तामहम् ध्रुवम् गर्ग उवाच इति तद्वाक्यमाकर्ण्य यादवा विस्मयम् गदाः तदैव कृष्णः सन्तुष्टो जग्राहपौत्रमेव च तदो हरिसुधर्मायामनिरुद्धं कृताञ्जलिं सर्वेषां शृण्वदां प्राहखननिर्हादया गिरा श्रीकृष्ण उवाच अनिरुद्धतुरङ्गस्य वर्षमात्रं च पालनं राजन्येभ्यश्च कृत्वा त्वम् पुनरागच्छात्र वै युधि श्रीगर्गसंहितायां हयमेधचरित्रे सुमेरौ गर्गागमनं नाम नवमोऽध्यायः ओन् श्रीगर्ग उवाच यदि ब्रुवति श्रीकृष्णे हंसस्त चतुराननः आजगाम कुशस्थल्यामीश्वरेण समन्वितः तदीन्द्रकुबेरश्च यमो वरुण एव च वायोर्वायुसखाश्चैव नैरृतश्च निशाकरः येदे समाययूराजन्कृष्णदर्शनाकाङ्क्षया तदश्च द्वादशा द्वितीया वेदालाश्च मरुद्गणाः विश्वेदेवाश्च साध्याश्च गन्धर्वा किन्नरास्तथा विद्याधराश्च मुनय्य श्रीकृष्णम् द्रष्टुमाययौ तत्रागदानाम् देवानामुग्रसेनेन माधवः यदा। विद्युपसङ्गम्य सर्वेषां मानमादधे आसनेषु उपविष्टेषु सभायां निर्जरेष्वधा श्लाखां चकार सर्वेषां लीलानरवपुर्हरिः अदब्रह्म हरे पार्श्वे स्थितश्चक्रेण प्रत्युवाजजगन्नाथम् बलभद्रसमन्वितम् ब्रह्मोवाच पौत्रस्ते बालककृष्णराजन्येभ्यश्च पालनम् कठिनम् श्यामकर्णस्य करिष्यति कथम् हरे मा तम् प्रेषय तस्मात् त्वम् रक्षणाय हयस्य वै विघ्नाश्च बहवः सन्धिप्रद्युम्नम् प्रेषयस्व च सङ्घर्षणं वा गोविन्द ह्यथ वा रक्षत्वम् हयम् इति तद्वचनम् श्रुत्वा निज गौ प्रभसन् हरिः श्रीभगवानुवाज अनिरुद्धो हाद्यादिमन्निषेधं न मन्यते तस्मात् तन्निकटे गत्वा निषेधं कुरु यत्नदः कृष्णस्य वाक्यमाकर्ण्य विधिश्चन्द्रसमन्वितः ययौ निवारणार्ताया निरुद्धं कार्ष्णिनन्दनं यदा गतौ समीपे दु सुरज्येष्टकलानिधि विग्रहेख्यनिरुद्धस्य लीनदाम् गदौ बभूवुर्विस्मिता सर्वे शिवशक्रादयः सुराः यादवामुनयश्चैव ह्युग्रसेनादयो नृपाः वज्रनाभत्वत्पितरम् संस्तुवन्तिगणा किल परिपूर्णतमम् तस्मादनिरुद्धं वदन्ति हि गर्ग उवाच अधोऽग्रसेनो नृपतिः सभादलादुद्धाय कृष्णम् मनसा प्रणम्य च स्वान्तः पुरम् सुन्दरत्नवेष्टिदम् जगामराजन् क्रतु कौदुकावृतः कत्वा ह्यन्तपुरे राजा सुरेन्द्रसदनोपमे पर्यङ्कस्ताम् भृजिमदीम् शचीतुल्याम् वराननाम् दासीभिः सेविताम् राज्ञीम् वस्त्रालङ्कारवेष्टिताम् वीजिताम् चामरै शुक्लयुग्दर्श नृपसत्तमः सा विलोक्यागदम् तत्र स्वपदिम् यादवेश्वरम् उद्धाय चादरम् राजन् चकार विधिना किल तदस्तित्वा स पर्यङ्गे प्रियां परां प्रोवाचप्रहसन्वान्या घनशब्दगभीरया हयमेधं करिष्येकं प्रिये कृष्णाज्ञयाद्य वै नरो यस्य प्रतापेन लभते वाञ्छिदं फलं गर्ग उवाच यदि तद्वचनं श्रुत्वा पुत्रदुःखेन दुःखिता स्मरन्ती कृपणा पुत्रान् प्रत्युवाच नृपेश्वरम् राज्ञुवाच पुत्रदर्शनहीनाया राजन्मे सर्वसम्पदः न रोचन्ते सुरैः प्रार्थ्या सुखेन यदि यज्ञप्रतापेन पुत्रो भवति सुन्दरः तदा प्रसन्नचित्ताहं भविष्यामि नृपेश्वर तस्या वाक्यं समाकर्ण्य नृपखिन्नमनाख्यभूद पुनराह प्रियं तत्र श्रद्धां श्राद्ध सुरो यथा राजोवाच शृणुभद्रेत्विमा माशां पुत्राणां बहु दुःखदाम् त्यक्त्वा विमुक्दिदम् साक्षात्कृष्णम् भज परास्परम् अहम् वृद्धस्तुत्वम् वृद्धा कथम् पुत्रो भविष्यदि तस्मादज्ञानजंशोकम् त्यज बन्धनकारणम् श्रुत्वा तु यादवेन्द्रस्य वाक्यं विज्ञानदम् परम् राजन् रुचिमदी प्राह यदूनाम् प्रवरम् पदिम् रुचिमत्युवाच राजन् यज्ञप्रतापेन प्राप्य देवाञ्चिदम् फलम् अहम् तु कामये द्रष्टुम् हतपुत्रान् समागदान् यदि त्वमीदृश्यम् वाक्यम् मृदानाम् दर्शनम् कुतः वदिष्यसि मदग्रेहि तदोऽन्यतृणु मन्मुखात् कृष्णेन दत्तम् तत्पुत्रं। गुरवे गुरुदक्षिणाम् तद्वत्स्वपुत्रान् राजेन्द्र कामये द्रष्टुमागतान् गर्ग उवाच इति श्रुत्वा ह्वयामासमाम् च कृष्णम् बृहच्छ्रवाः तयोः सपर्यमहीमागताभ्यां चकारः तौ पूजयित्वाभिप्रायं ताभ्यां सर्वं न्यवेदयद उग्रसेनस्य वाक्यं वैश्रुत्वा मधुवचनाधरिः उपशक्रो यथा शक्रं प्राह तद्वन् नृपेश्वर श्रीभगवानुवाच शृणु रामस्तव सुधा प्रधने निषदा ते सर्वे दिव्यदेहेन वर्दन्ते दिवि देव वद तस्मात् त्वम् नृपशार्दूलपुत्रशोकम् विहाय च अश्वमेधम् क्रदुवरम् कुरु धैर्येण भूपदे दर्शयिष्याम्यहम् सर्वान्यज्ञस्यान्ते च दे निशम्य कृष्णवचनमुर्वीश स्वां प्रियां मुदा अश्वास्य च शुभैर्वाक्यै सुधर्मां सुजनैर्ययौ आगदं तु नृपं वीक्ष्य श्रीकृष्णेन समन्वितं दिक्पालाश्च प्रणेमुर्वै रामेशानादय सुराः भूपस्य वज्रनाभे तपः परम् किं वर्णयामि यं सर्वे श्रीकृष्णाद्यानमन्तिः यादवेन्द्रस्तु सर्वान् वै देवान्नत्वा विलज्जितः शक्रसिंहासने दिव्येनारुरोहविचारयन् तदैव कृष्णो भगवान् गृहीत्वा पाणिना नृपं स्वभक्तं स्थापयामास तस्मिन् वै वासवासने इति श्रीगर्गसंहितायाम् हयमेधचरित्रे राजराज्ञी संवादे दशमाध्यायः ओम्